अय कणपचक्राश्मुषु्युत बाहव कृष्ण पार्थ जिघांसत क्रोधसमूर्छितौज ततिव्याहता शस्त्रवर्षं प्रमुंचता प्रमोत्तमी बीभत्सुर्शित शर कृष्ण सुमहातेजाचक्रे दैत्यदानवसङ्घानाञ्चकारकदनम् महत् अथा परेशरैर्विद्धाश्चक्रवेगेरितास्तथा वेलामिव समासाद्य व्यतिष्ठन्नमितौ जसः ततः शक्नोति सङ्क्रुद्धस्त्रिदशानाम् महेश्वरः पाण्डुरम् गजमास्थाय तावुभौ समुपाद्रवत् वेगेनाशनिमादाय वज्रमस्त्रं च हतावेता वितिप्राः सुरानसुरसूदनः ततः समुद्यताम् दृष्ट्वा देवेन्द्रेण महाशनिम् जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा कालदण्डं यमो गदां चैव धनेश्वरः पाशांश्च तत्र वरुणो विचित्रां च तथा स्कन्दः शक्तिं समादाय तस्थौ ओषधीर्दीप्यमानाश्च जगृहातेष्विनावपि जगृहे च धनुर्धाता मुसलम् तु जयस्तथा पर्वतम् जग्राह क्रुद्धस्त्वष्टा महाबलः अंशस्तु जग्राह मृत्युर्देव परश्वथम् प्रगृह्यपरिघम् घोरम् विचचारार्यमा अपि मित्रश्चक्षुरपर्यन्तम् चक्रमादायतस्थिवान् ऊषाभगश्च संक्रुद्धः सविता च विशाम्पते आतकार्मुकनिस्त्रिंशाः कृष्णपार्थौ प्रदुद्रुवुः रुद्राश्च वसवश्चैव मरुतश्च महाबलाः विश्वे देवास्तथा साध्या दीप्यमाना स्वतेजसा येते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः तत्राद्भुतान्यदृश्यन्तनिमित्तानि महाहवे युगान्तसमरूपाणि भूतसम्मोहनानि च तथा दृष्ट्वा सुसंरब्धम् शक्रम् देवै सहाच्युतौ अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ आगच्छतस्ततो देवानुभौ असकदग्न सक सुरा बहुश भयादृण परतज्य श्रमेवा शिश्रियु